श्रीहरये नमः अथ षष्ठध्यायः श्रीसुख उवाच ततः प्राचेतसोऽसिज्ञाम् अनुनीत स यम्भुवान् षष्टिं सञ्जनयामास दुहितृ पितृवत्सलाहा कृसाश्वेभ्यो द्वे द्वे दार्शाय चापराः नामधेयानियमूषां त्वं सापत्यानां च मे शृणो यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः भानुर्लम्बा खगोब्जामेर् विश्वासाद्यामरुद्वती वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुृणो भानोस्तु देववृषभ इन्द्रसेनस्ततो नृप विद्योत आसीत् लम्भायास्ततश्चनयित् ककुभसङ्कटस्तस्य कीकटस्तनयो यतः भुवो जामेय स्वर्गो नन्दिस्ततोऽभवत् विश्वे देवास्तु विश्वाय अप्रजान्तान् प्रचक्षते साध्यो गणस्तु साध्याय अर्थसिद्धिस्तु तत्सुतः मरुत्वांश्च जयन्तश्च मरुत्वत्याम् बभूवतुः जयन्तो वासुदेवांश्च कुभेन्द्र इति विदुः मुहूर्तिका देवगणा मुहूर्तायाश्च ज्ञे ये वै भूतानां स्वस्वगालजं सङ्कल्पायाश्च सङ्कल्प कामसङ्कल्पजस्मृतः वसवोष्ठो वसो पुत्रास्तेषां नामानि मेषृणो द्रोणप्राणो ध्रुवोर्गोऽग्नेर्दोषावसुर्विभावसुः द्रोणस्याभिमते पत्न्या हर्षशोकभयादयः प्राणस्योर्जस्वती भार्या सह आयुपुर ध्रुव से भारा धरणी रसूद विविधापुरा अर्क वासना भार् पुत्रर्षाद स्मृता अग्ने भार् वसोधारा पुत्र द्रविण का दयाकृत्ति दोषस्य सर्वरी पुत्र शिशुमारोहरे कलाः वसोराङ्गिरसी पुत्रो विश्वकर्मा कृतिपतिः ततो मनश्चाशुषोऽभूत् विश्वे साध्या व्युष्टं रोचिषमातपं पञ्चयामोतभूतानि येन जाग्रतिकर्मसु सरूपासुतभूतस्य भार्या रुद्रांश्च कोटिसहा रैवतो जो भवो भीमो वामबुग्रो वृशाकभिः ऐजैगपादहिर्भुज्ञो बहुरूपो महानिति रुद्रस्य पार्श्वश्चान्ये घोराभूतविनायकः प्रजापते अङ्गिरस स्वधापत्नीपितॄनताम् अथर्वाङ्गिरसं वेदं पुत्रत्वे च अकरोत्सति कृसास्वोर्चिषि भार्यायां धूम्रकेशम् अजीजनत् धिषणायां वेदशिरो देवलं वयुनं मनुम् दार्शस्य विनथा गतॄपथङ्गी यामिनीति च पथङ्ग्यसूतपदघान् यामिनीसलानथा सुपर्णासूतगरुटं साक्षात् यज्ञे सवाघनं सूर्यसूतमनोरुं च भर्तृर्नाघात् अनेकसहान् कृत्तिकादीनि इन्दोपत्यस्तु भारत दक्षशापात्सो न तासो तासु यक्ष्मघ्रहार्दिदः पुनः प्रसाद्य तं सोमः कलालेभेक्षयेदितः शृणुनामानि लोकानां मातॄणां शङ्कराणि च अतः कश्यपपत्नीनां यत्प्रसूतमिदं अधितीर्धितीर्धनुकाष्ठा अरिष्ठा सुरसायिला मुनिक्रोधवसा ताम्रा सुरभिस्सरमातिमिहे तिमेर्याधोगणा आसन् स्वापधा सरमासुताः सुरभैर्मखि ये चान्ये द्विसपा नृपान् ताम्रायाश्येन कृत्राध्या पुने अप्सरसां गणाः दन्तशूकाधयः सर्पा राजन्क्रोतभसात्मजाः इलाया भूरुहा सर्वे यादुधानाश्च सौरसाः अरिष्ठायाश्च गन्धर्वा काष्टाया द्विसपेदर सुधादनोरेक प्राधानिकान् शृणो द्विमूर्धा सम्भरोरिष्ठो हयग्रीवो विभावसुः अयो मुखः शङ्कुशिरा स्वर्भानुः पुलोमा वृषपर्वाश्च एकच्चक्रो नुतापनः धूम्रकेशो विरूपाक्षो विप्रचित्तिश्चर्धुर्जयः स्वर्भा नो सुप्रभां कन्या उवाकनमुचिक्किलः वृषभर्वणस्तु शर्मेष्ठां ययातीर्णाकुशो भली वैश्वानरसुतायाश्च चतस्रश्चारुधर्षणाः पुलोमा कालका तथा उपधानविभिरण्क्ष क्रतुर्हयशिरां नृपां पुलो कालकां का च द्वे वैश्वानरसुते दुःखा उपयेमेत भगवान् कश्यपो ब्रह्मचोदितः पौलोमा कालकेयाश्च धानवायुधशालिनः तयोषष्टिसहस्राणि यज्ञां स्थेपितुः पिता जघान स्वर्गतो राजन् एक इन्द्रप्रियङ्करः विप्रचित्तः सिंहिकायां शतं चैकमजीजन राहुज्येष्ठं केतुशतं गृहत्वं यवुभा कतः अथातश्रूयतां योदितेरनुपूर्वशः यत्र नारायणो देव स्वां सेनावतरद्विपुः विवस्वान् अर्यमाभूषा अष्टादशविताभगः धाता विधाता वरुणो मित्रशक्रपुरुक्रमः विवस्वतश्राद्धदेवं सज्ञासु यथ वैमनुं मिथुनं च महाभाग यमं देवं यमीं तथा सैव नासत्यौ सुक्ष् भुवि छायासनैश्चरं लेभे सा वर्णिं च मनुन्ततः कन्यां च तपतीं या वै वव्रे संवर्णं पतिं हर्यं न मातृका पत्नी तयोश्चर्षणयः यत्र वै मानुषी जातेर्ब्रह्मणा चोपकल्पिता पूषाणपत्यपिष्ठाधो भवत्पुरा योऽसौ दक्षाय अजहासविवृध द्विजहान् त्वष्टोर्दैत्यानुजाभार्या रचनानामकन्यका संनिवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् तं वं सुरगणा स्वस्त्रीयं द्विषतामपि विमतेन परित्यक्ता गुरुणा आङ्गीरससेन इति श्रीमद्भागवते महापुराणे षष्ठस्कन्दे षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्महराजिकी जय